अथैकपञ्चाशः सर्गः तस्य तद्वचनम् श्रुत्वा विश्वामित्रस्य धीमतः हृष्टरो मा महातेजाः शतानन्दो महा गौतमस्य सुतो ज्येष्ठस्तपसाद्योतितः प्रभः रामसन्दर्शनादेव परम् विस्मयमागतः सम्प्रेक्ष्य शतानन्दो सुखासीनौ मुनिः श्रेष्ठम् विश्वामित्रमथाब्रवीत् अपि ते मुनिशार्दूल मम माता यशस्विनी दर्शिता राजपुत्राय तपो दीर्घमुपागता अपि रामे महातेजा मम माता यशस्विनी वन्यैरुपाहरत् पूजार्हे सर्वदेहिनाम् अपि रामाय कथितम् तत्पुरातनम् मम मातुर्महातेजो देवेन दुरनुष्ठितम् अपि कौशिकभद्रम् ते गुरुणा मम सङ्गता मम मातामुनिःश्रेष्ठरामसन्दर्शनादितः अपि मे गुरुणा रामः पूजितः कुशिकात्मजा इहागतो महातेजाः पूजाम् प्राप्य महात्मनः अपि शाम् तेन मनसा गुरुर्मे कुशिकात्मजा इहागतेन रामेण पूजितेनाभिवादितः तच्छ्रुत्वा वचनन्तस्य विश्वामित्रो महामुनिः प्रत्युवाच शतानन्दम् वाक्यज्ञोवाक्यकोविदम् नातिक्रान्तम् मुनिः श्रेष्ठयत्कर्तव्यम् कृतम् मया पत्नी भार्गवेणेव रेणुका तच्छ्रुत्वा वचनन्तस्य विश्वामित्रस्य धीमतः शतानन्दो महातेजारामम् वचनमब्रवीत् स्वागतम् तेन रश्रेष्ठदिष्ट्या प्राप्तोऽसि राघव विश्वामित्रम् पुरस्कृत्य महर्षिमपराजितम् अचिन्त्यकर्मा तपसा ब्रह्मर्षिरमित प्रभः विश्वामित्रो महातेजा वेद्येनम् परमाम् गतिम् नास्ति धन्यतरो रामत्वत्तोऽन्यो भुवि गोप्ता कुशिकपुत्रस्ते येन तप्तम् महत्तपः श्रूयताम् चाभिधास्यामि कौशिकस्य महात्मनः यथा बलम् यथा तत्त्वम् तन्मे निगदतः शृणु राजा सीदेश धर्मात्मा दीर्घकालमरिन्दमः धर्मज्ञः कृतविद्यश्च प्रजानाम् च हितेरतः प्रजापतिसृतस्त्वासीत् कुशो नाम कुशस्य पुत्रो बलवान् कुशनाभः कुशनाभसुतस्त्वासीद्गाधिरित्येव विश्रुतः गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः विश्वामित्रो महातेजाः पालयामास बहु महा मेदिनी बहुवर्षसहस्राणि राजा राज्यमकारयत् कदाचित्तु महातेजा योजयित्वावरूथिनीम् अक्षौहिणी परिवृतः परिचक्राममेदिनीम् नगराणि च राष्ट्राणि सरितश्च महागिरीन आश्रमान् क्रमशो राजा विचरन्ना जगामः वसिष्ठस्याश्रमपदम् नानापुष्पलताद्रुमम् नानामृगणाकीर्णम् सिद्धचारणसेवितम् देवदानवगन्धर्वैः किन्नरैरुपशोभितम् प्रशान्त हरिणाकीर्णम् द्विजसङ्घनि सेवितम् ब्रह्मर्षिगणसङ्कीर्णम् तपश्चरणसंसिद्धैरग्निकल्पैर्महात्मभिः सततम् सङ्कुलम् श्रीमद्ब्रह्मकल्पैर्महात्मभिः अभक्षैर्वायुभक्षैश्च शीर्णपर्णाशनैस्तथा फलमूलाशनैर्दान्तैर्जित दोषैर्जितेन्द्रियैः ऋषिभिर्वालखिल्यैश्च जपहोमपरायणैः अन्यैर्वैखानसैश्चैव समन्तादुपशोभितम् वसीष्ठ्रम पद ब्रह्म लोक दश जयता श्रेष्ठो विश्वाम महाबल इशे श्रीमद्मा आजिकांडे एक सर्ग